जगद्गुरु आद्य श्री शङ्कराचार्यभगवत्पादानाम् अष्टोत्तरशतनामावलिः ध्यानम् कैलासाचलमध्यस्तम् कामिताभीष्टदायकम् ब्रह्मादिप्रार्थनाप्राप्तदिव्यमानुषविग्रहम् भक्तानुग्रहणैकान्तशान्तस्वान्तसमुज्ज्वलम् संयज्ञम् संयमीन्द्राणाम् सार्वभौमम् जगद्गुरुम् किङ्करीभूतभक्तैनः पङ्कजातविशोषणम् जायामि शङ्कराचार्यम् सर्वलोकैकशङ्करम् ओम् श्रीशङ्कराचार्यवर्याय नमः ओ ्रह्मानन्दप्रदायकाय नमः ॐ अज्ञानतिमिरादित्यायम् सुज्ञानाम्बुदिचन्द्रमसे नमः ॐ वर्णाश्रमप्रतिष्ठात्रे नमः ॐ श्रीमते नमः